चतुर्थश्लोकः त्यक्त्वा विषयम् बाह्यम् रुद्धप्राणेन रुद्धमनसान्तस्त्वाम् ध्यायन् पश्यति योगी देदिति दे मरुणा चलत्वयि महीयन्ते चतुर्थश्लोकस्यानुवादः विहाय बायो वस्तु बाह्यवस्तु वायुरोदनान्मनोहठा निरुद्धश योगस्मरन् भवन्तमेव सर्वदा महिम्निलीनधीः प्रभे क्षणेन मोदते भृशम् अथोत्थितः स वासनेन चेतसा तु संसरेत् वार्तिकम् शिष्येते यतमानौ द्वव। योगे प्रेमे परात्मने चतुर्थे योगिनम् वक्ते प्रेमिणम् पञ्चमे गुरुः तत्र योगे हठा रुद्ध्वा प्राणायामेनसम् चिज्योतिर्वीक्षणम् लब्ध्वा तदानीं मोदते भृशम् मनोरोधो हठात्सिद्धो सिद्धो नस्थिरो भविता क्वचित् लीनमेव मनस्तिष्ठेत् सुवासनमथोदयात् मनोनाशेन मुक्तिर्हि न लयेन कदाचन लीनम् हि पुनरायाति नष्टम् नैवोदयात् पुनः अनाशान्मनसो योगे जीवत्वं न जहाति हि स्फुटीकर्तुमिमम् भेदम् मनसो लयनाशयोः गुरुर्वक्ते पुरावृत्ताम् कथाम् कस्यापि योगिनः समाधेर्व्यत्यतो योगी पिपासार्दितमानसः शिष्यमादिश्यतीर्थाय समाधिम् प्राविशत्पुनः ययुश्यतानि व्यत्यतो व्यत्यतोऽभूत्ततः परम् जलाथ प्रेषितं शिष्यम् वेगेनाथ स्मरंस्तदा उवाचोच्चैश्च भोस्तीर्थम् किमानीतं त्वयेत्यसौ पिपासा वासनायुक्तम् मनोलीनं यभोच्चरम् उदयाय च वेगेन समाधेर्व्युत्थितस्य हि मनसो ह्येवम् वेगेन स्मृतिरुद्गता महिम् निरमते योगी न स्वरूपम् प्रपद्यते इत्युक्त्या योगिनो भोगो दिश्यते न तु मोक्षणम् अल्पमप्यन्तरम् कृत्वा भयमेतेति च श्रुतेः नाभयम् विन्दते अर्थो निरूपितः विना विवेकमत्रोक्तम् स्वशक्त्या च हटेन यतमानो हि दिष्टोऽत्र न तु सर्वोऽपि यावन्न सज्जते सोऽयम् विचारेऽहङ्कृतिम् त्यजन् परं वा शरणं याते तावन्नायं विमुच्यते